श्रीहरये नमः अत अष्टमोऽध्यायः राजोवाचा यया गुप्तः सहस्राक्ष सवाहान् रिपुसैनिकान् क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे भगमंस्तन्ममाख्याहि वर्म नारायणात्मकं येनगुप्तो तथा यिनशुत्रून् येन गुप्तो जयन्मृधे श्रीसुकौवाचा वृतः प्रोहितस्त्वाष्ट्रो महेन्द्रायानुवृच्छते नारायणाख्यं वर्माह दतिहैकमनाशृणु विश्वरूप उवाच आचम्यं। आचम्य शपवित्र उदङ्मुखः कृत्संग्वाङ्घकरन्यासो मन्त्राभ्यां वाग्यधः शुशिः नारायणमयं वर्म सन्नह्येद्भय आगते पादयोर्जानुनोरुर्वो रुधरे हृद्यतोरसि मुखेशिरस्यानुपूर्व्यात् ओङ्कारादीनि विन्यशेत् ॐ नमो नारायणायेति विपर्ययमथापि वा करन्यासं ततः कुर्याद् द्वादशाक्षरविद्यया प्रणवादियकारान्तम् अङ्गुल्यङ्गुष्ठपर्वसु न्यसेत् हृदय ओङ्कारं विकारमनुमूर्धनि षकारं तु भ्रुवोर्मध्ये नकारं शिकया दिशेत् विकारं नेत्रयोर्युञ्जान् नकारं सर्वसन्दिशो मकारमस्त्रम् उद्दिश्य मन्त्रमूर्तिर्भवेद्बुधान् सविसर्गं पठन्तं तत् सर्वदिक्षु विनिर्दिशेत् ॐ विष्णवे नमयिति आत्मानं परमं ध्यायेद् ध्यायें षट्शक्तिभिर्योधं विद्या तेजस्तपो मूर्तिम् इमं मन्त्रमुदाहरेत् ॐ हरेर्विध्यान् मम सर्वरक्षाम् यस्ताङ्ग्रि पद्मपदघेन्द्रभृष्टे धरारि चर्मासि गतेषु चापपाशान् दतानोष्टगुणोष्ठबाहुः जलेषु मां रक्षतु मत्स्य मूर्ते यथोगणेभ्यो वरुणस्य पाशात् स्थेलेषु मायावटु वामनोभ्यत् त्रिविक्रमकेवतु विश्वरूपः दुर्गेष्वटव्याजिमुगादिषु प्रभोः पायान्द्रसिंहोऽसुरयूतपारिहे विमुञ्चतो यस्य महाट्टहासं दिशोविने विनेधुर्न्यपतं गर्भाः रक्षत्वसौ माध्वनियज्ञकल्पः स्वधंष्ट्रयोन्नीतधरो वराहः रमोद्ब्रिकूटेष्वत विप्रवासे स लक्ष्मणो व्याद्भरधाग्रजोऽस्मान् मामुक्रधर्मात् किलात् पायाद्गुणे स कपिलः कर्मबन्धात् सनन्कुमारो वधुकामदेवात् खयशीर्षा माम्बदिदेवहेलनात् देवर्षिवर्यपुरुषार्चनान्तरात् कूर्मो ह्रिर्मा निरयादशेषाद् धन्वन्तरिर्भगवान् पात्वभत्याद् द्वन्त्वाद्भयातृषभो निर्जितात्मा यज्ञ लोकावनातालो गणा क्रोधवसा दींद्रैपालयनो भगवान्बोधस्तु पा गणा प्रमाकि धर्मावनायोरुकृतावतारः मां केशवो गतया प्रतरव्याद् गोविन्द आसङ्गवमातवेणुहो नारायणः प्राज्ञ उदात्तशक्तेर्म विष्णुररीन्द्रपाणेर्देवोपराग्ने मधुहोद्ग्रधन्वान् सायं त्रिधामावतु माधवो माम् दोषे घृषिेशबुदाधरात्रे निशीतो वधु पद्मनाभ श्रीवत्सापर रात्रीश प्रत्यूषयीशोषिधरो जनादन दामोदरो व्याधनुसन्ध्यं प्रभादे विश्वेश्वरो भगवान् कालमूर्तिः चक्रं युगान्तानलिधिग्मनेमे भ्रमत्समन्धात् भगवत्प्रयुक्तं दं दग्धिदन् दग्ध्यरिसैन्यमासो कक्षं यथा वादसको हुधासाः गते स्निस्पर्शनविस्फुलिङ्गे जितः प्रयासें कूष्माण्डवैनायकै यक्षरक्षो भूदग्रहां शूर्णय शूर्णयारेन् त्वं यातु धानप्रमद रते मातृ पिशाचविभ्रग्रहघोरदृष्टेन् धरेन्द्रविद्रावय कृष्णपूरितो त्वं दिग्मधारासि वारिसैन्यम् ईशप्रयुक्तो मम चिन्धि चिन्धि चक्षुंषि चर्मन् सतचन्द्रधय द्विषामघूनां हरपापचक्षुषां यन्नो भयं ग्रहेभ्योऽभूत् केदुभ्यो नृप्य एव च सरीश्रुभेभ्यो सर्वाण्येतानि वाेतानि भगवन्नामरूपास्त्रकीर्तनात् प्रायन्तु संक्षयं सद्यो येनाश्रये प्रतीपकाः गरुडो भगवान् स्तोस्त्र स्तोभचन्तोभमयः प्रभुः रषत्वसकृ शकृच्छ्रेभ्यो विष्वक्सेन स्वनामभिः सर्वापद्भ्यो हरेर्नामरुपयानायुधानिनः बुद्धिद्रियमनः प्राणान् भान्तु भार्षतभूषणाः यथा हि भगवानेव वस्तुतः सतसश्च यत् सत्येन अनेन नः सर्वे यान्तु यदैकात्म्यानुभावानां विकल्परहितस्वयं भूषणायुधलिङ्गाय दद्धे शक्तिस्वमायया तेनैव <laughs> सत्यमानेन सर्वज्ञो भगवान् हरिः पादु सर्वैस्वरूपै न सदा सर्वत्र सर्वगहां विदिक्षु दिक्षुर्ध्वमतः अन्तर्बहिर्भगवान् नारसिंहः प्रहापयन् लोकभयं स्वनेन स्वधेजसाग्रस्तसमस्ततेजाः मघवन् इदमाख्यातं वर्मनारायणात्मकम् विजेष्यसि यज्ञसायेन धंसितोऽसूरयूतपान् एधद्धारयमाणस्तु यं यं पश्यति चक्षुषाम् पधा वा संस्पृशेत् सद्यं सद्वसात्सविमुच्यते न कुतश्चित् भयं तस्य विद्यां धारयतो भवेत् राजधस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हि चेत् इमां विद्यां पुरा कश्चित् कौसिको धारयन्द्विजः योगधारणया स्वाङ्गम् जघौ समरुधन्वनीं तस्योपरिविमानेन गन्धर्वपतिरेगधा ययोचित्र रदस्त्रिभिर्वृतो यत्र द्विजक्षयः गगनान्यपधत् सद्य सबालकिल्यवचनादस्तीय विस्मितः प्राची सरस्वत्यां स्नात्वा धाम स्वमन् बगाद् श्रीशुक उवाच एतां विद्यामधिगतो विश्वरूपाच्चतक्रतुः त्रैलोक्यलक्ष्मीम्बुभुजे विनिर्जिध्यं रुधे सुरान् इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे नारायणवर्मकथनं नाम अष्टमोऽध्यायः सर्वत्र गोपिकाजीवनस्मरणम् गोविंदा, गोविंदा, सदगुरुनाथ महाराज की जय